अथ नादिर्गणः अथ सप्त उभयतो भाषाः तनुविस्तारे षणुदाने क्षणुहिंसायाम् क्षणु च ऋणुगतौ त्रिणुअदने घृणुदीप्तौ इत्युदात्तः स्वरितेतः अथ द्वावात्मने भाषौ वनुयाचने मनुअवबोधने इत्युदात्ता वनुदात्तेतौ अथैक उभयतो भाषः डोक्रे करणे अनुदात्तः वृत् तनार्गण